हरि ओं श्रीसीतारामचन्द्राभ्यां नमः अथ श्रीमत् अध्यात्मरामायणे अयोध्याकाण्डे नवमः सर्गः श्रीमादेव उवाच वाच गत्वा श्रमपद समीपं भरतो मुदा सीतारामपदुक्तम् पवित्रम् अतिशोभनम् स तत्र वज्राङ्कुशवारि जञ्चित ध्वजाति नानि पदानि सर्वते दर्श रामस्य भुवोति मङ्गला न्य चेष्ट यत्पादरज अहो सुधन्योह ममो निराम पादारविन्दाङ्कितभूतलानि पश्यामि यत्पादरजो विमौग्र्यम् ब्रह्मादिदेवे श्रुतिवे च रघुनाथ भावने आनन्दश्रू स्मपितस्तनान्तरे शनैरवापश्रमसन्निधि हरे स तत्र दृष्ट्वा रघुनाथमाश्रितम् दुर्वादलश्चामरमायते क्षणम् जटाकिरीटं नवबल्कलाम्बरम् प्रसन्नवक्त्रं तरुणारुणद्युतिम् विलोकयन्तं जनकात्मजां शुभाम् सौमित्रिणा सेवितपादपङ्कजम् तदाभिरुद्रावरघोत्तमं शुचा हस्या च तत्पादयुगं स्वरागहीत् रामस्तमाकृश सुदीर्घ बाहु दोर्भ्याम् परिष्वज्य शिशिञ्च नेत्रय जलरेथाङ्को परिसन्न्यवेशयत् पुनः पुनः सम्परिशयत् समाजमु त्वरान्विता राघवम् द्रष्टुकामासा तुषार्था गौर्यथा जलम् रामः स्वमातरम् वीक्ष्य श्रत्थाय पादयो स्ववन्दे च सुरसा पुत्रम् आलिङ्ग्यातीव दुःखिता इतरश्चेतथा नत्वा जननी रघुनन्दनः तथा समागतं दृष्ट्वा वसिष्ठम् स संगम प्रणिपत धन्योस्मी पुनः पुनः यघुदिता कुशली किसी वाचेम पिता ते रघुनंदन तद्गा भीतम तमें पिचिंत राम सीते लक्ष्मणेति ममरः श्रुत्वा तत्कर्णशूलाभम् गुरुर्वच न मञ्जसा हतोऽस्मीति पतितो रुदन् रामः स लक्ष्मणः ततो नूरुदः सर्वा मातरश्च तथा परे हातात्मां परित्यज्य वै गतोऽसि घृणाकरे अनाथोऽस्मि मह बाहु ीता च लक्ष्मण चैव विलेप तूरतो भृशम् वसिष्ठान्तवचने क्षमयामास तां शुचम् ततो मन्दाकिनिं गत्वा स्नात्वा ते वीत कल्मषः राज्ञे ददुर्जलम् तत्र सर्वेते ते जलकाङ्क्षिणे पिण्डान् निर्वापयामास रामो लक्ष्मणसंयुतः इङ्गोदी फलपिण्याक रचितान् मधुसम्प्लुतान् वयम् यदन्ना पितर तदन्ना स्मृतिनोदितः इति दुःखाक्ष पूर्णाक्ष पुनः सर्वे रुदित्वा सुचिरम् स्नात्वा जगमो तदाश्रमम् सर्वे उपवासम् प्रचक्रिवे ततः परे मन्दाकिनी जले उपविष्टम् समागम्य भरतो राममब्रवीत् राम राम महाभाग स्वात्मानम् भविषेचय राज्यम् पालय पिश्यन्ते यश्च सम्मेपिता यथा धर्मो यत्प्रः परिपालनम् इष्टयन्ये बहुविधै पुत्रानुत्पाद्यतन्तवे राजे पुत्रम राज्य पुत्र गि तथो वनम इ वनवास सेलो ना प्रसीद मे मातु दुष्कृत किंचितिस्तुम नर् पाताचरण भ्रतु शिश्याय भक्ति राम से साक्षा दंडवत् पति भुवि उत्थप्य राघवशीघ्र आरोप्याङ्केति भक्तितः उवाच भरतम् राम स्नेहाद्रनयनशनै शृण्व प्रवक्ष्यामि त्वयोक्तम् यत् तथैव तत् किन्तु माम् अब्रवीत्ता तु नववर्षाणि पञ्च च उषित्वादन्यकारण्ये परम् पश्चात् समाविश इदानीम् दत्तम् मया अखिलम् तदपित्रैव सुव्यक्तम् राज्यम् दत्तम् तवैव हि दण्डकारण्य राज्यं मे दत्तम् पित्रा तथैव च अनपितुर्वच कार्यम् आवाभ्याम् अतियत्नतः पितुर्वचनम् उल्लङ्घ्य स्वतन्त्रो यस्तु वर्तते स जीवन्नैव मृतको देहान्ते निरयम् तस्मान् राज्यम् प्रसाधीतम् वयम् दण्डकपालकः भरतस्वब्रवीद्रामम् कामको मूढधि पिता सृजितो भ्रान्त हृदये उन्मत्तो यदि वक्ष्यति तत्सत्यम् इति न ग्राह्यम् भ्रान्तवाक्यम् यथा सुधि श्रीरामोवाच न सृजित पिता भ्रूयान् न कामी नैव मूढधि पूर्वम् प्रतिशुतं सत्यवादी ददोभयात् असत्याद् भी भीतिरधिकार भवताम् नरकादपि करोमित्यहम् अप्येत सत्यम् तस्य पतिश्रुतम् कथम् वाक्यम् अहं कुर्याम असत्यम् राघवो हि सन् इति उदीरितमाकर्ण्य रामस्य भरतो ब्रवीत् तथैव चिरवसनौ वने वत्स्यामि सूरते चतुर्दशे समाश्वन्तु राज्यम् कुरु यथा सुखम् श्रीरामोवाच पित्रा दत्तं तवैवैतत् राज्यम् मह्यम् वनन्ददो व्यत्ययम् यद्यहम् कुर्याम् असत्यम् पूर्ववत्स्थितम् भरतोवाच अहमप्यागमिष्यामि सेवेतां लक्ष्मणो यथा नो चेत् त्वायोपवेशेन त्यजामेतत् कलेवरम् निश्चय कर्भा नातपे मन सा मुखोपिवेश निर्बंध दुष्कारा मोटे विस्म ने सं गुरव चकार रघुनंदन एर संप्रे वसीना वस् गुह्यं शुणुष्वेदम मम वाक्यात् रामो नारायण साक्षात् ब्रह्मणा पुरा रावणस्य वधार्थाय जातो दशरथात्मज योगमाय अपि सीतेति जातः जनकनन्दिनी शेषोऽपि लक्ष्मणो जातो रामम् मन्वेति सर्वदा रावणम् हन्तुकामासे नमिष्यन्ति न कैकैय्यावरदानानि वरदानाने सर्वम् देव कृतम् नो चेत् एवम् सा भाषयेत् कथम् तस्मात् तया गृहम् तात् रामस्यैव निवर्तने निवर्त स्व महासैन्ये मातृभिः पुरम् रावणम् सकुलम् हत्वा शीघ्रम् इति श्रुत्वा गुरुर्वाक्यम् भर विस्मयान्व गी राम सेमोच पादुके दिहि राजेन्द्र राजा ये तव पूजि तय सेवा कौम्यवनम तव इच्चा पादुके दिव्य योजयामास पादयो राम सेमो भ्रताया कि भक्ति गृहीत्वा पादुके दिव्ये भरतो रत्नभूषिते रामम् पुनः परिक्रम्य प्रणनाम पुनः पुनः भरते पुनराहेदम् भक्त्या गद्गदया गिराय नव पञ्चे तु प्रथमे दिवसे यदि नागमयिष्यामि चेद् राम प्रविशामि महानलम् बाणम् इत्येव भर सन्य वर्त सैन्य सशिष्ठ चत्रुघ्न सहित सुधी मातृ मंत्री साधम गमनायोपच क्रे कई रावण नेत्र जलाकुलाय प्राजलि प्रहये राम तव राज्य विघातनमत दुष्टधिया, दुष्ट धिया माया मोहित चेतसा क्षमस्व मम दौरात्म्यम् क्षमासाराहि साधवः तं साक्षात् विष्णुरव्यक्तः परमात्मा सनातनः मायामानुषरूपेण मोहयस्य अखिलम् जगत् तय्येव प्रेरितो लोक कुरुते साधु साधुः तदधीनमिदं विश्वम् अस्वतन्त्रम् करोति किम् यथा कृत्रिमनस्तर्क्यो नृत्यन्ति कुहकेच्छय तदधीना तथा माया नर्तकी बहुरूपिणी सय्येव प्रेरितां च देवकार्यं करिष्यत पापीष्ठम् पाप मनसः कर्माचरमरिन्दमय अद्य प्रतीतोऽसि ममय देवानामप्यगोचर पायी विश्वेश्वरानन्द जगन्नाथ नमोस्कृते चिन्धि स्नेहमयम् पाशम् पुत्रवित्तादिगोचरम् सद् ज्ञानानखड्गेन त्वामहम् शरणम् गता कैकेय्या वचनम् श्रुत्वा रामः सस्मितम् यदा हे मां महाभागे नानृतम् सत्यमेव तत् मय्येव प्रेरिता वाणी तव वक्त्रात् देवकार्यार्थसिद्ध्यर्थम् अत्र दोष कुतस्तव गच्छ तमृदि मां भावयन्ति दिवनिशम् सर्वत्र विगत स्नेहा मद्भक्ता मोक्षसे चिरात् अहम् सर्वत्र समद्रु देशो वा प्रिय एव वा नास्ति मे कल्पकस्यैव भजतो नो भजाम्यहम् मन्माया मोहितदियो मामम्ब मनुजाकृतिम् सुखदुःखाद्यनुगतम् जानन्ति न तु तत्पतः दिष्ट्या मद्गोचरम् ज्ञानम् उत्पन्नम् ते भवापम् परन्ति तिष्ठभवने लिप्यसे न च कर्मभि इत्युक्त्वा परिक्रम्य रामम् सानन्द विस्मय प्रणम्य शतशुभूमौ ययोगेऽहं वदान्विता भरतस्तु सः मात्यै मातृभि गुरुणा सह अयोध्याम् नगमत् शीघ्रम् रामम् एव अनुचिन्तयन् पौरजान् पदान् सर्वान् अयोध्यायामुदारथि स्थापयित्वा यथा न्यायम् पादुके स्थाप्य भक्तितः पूजयित्वा रामम् गन्ध पुष्पाक्षतादिभिः राजोपचारी अखिलैः प्रत्यहं यत व्रतः परमूला शनो दान्तो चकावल् कलधारक अधशायी ब्रह्मचारी शत्रुघ्ना सहितस्तदा राजकार्याणि सर्वाणि यावन्ति पृथ्वीतले तानि पादुकयो सम्यग् निवेदयति राघव गणयन् दिवस नैव रामा गमनकाङ्क्षय चितो रामार्पितमना साक्षात् ब्रह्म मुनिर्यथा रामस्तु चित्रकूटाद्रौ वसन्मुनिभिरावृतः सीतया लक्ष्मणेनापि किञ्चित् कालमुपावचत् नागरा च सुधायन्ति राम दर्शन चित्रकूट स्थितं सीतया लक्ष्मणेन च दृष्ट्वा तज्जन संवादम् गिरिम् दण्डकारण्यगमने कार्यमप्यनुचिन्तयन् अन्रया सीतया भ्रात्रा यत्रैराश्रममुत्तमम् सर्वत्र सुख संवासम् गत्वा मुनिमुपासीनम् भासयन्तम् तपोवनम् दण्डवत् प्रणिपत्याः रामोऽहम् अभिवादये पितुराज्ञाम् पुरस्कृत्य दण्डकानमागतः वनवासम् मिषेणापि धन्योऽहम् दर्शना तव श्रुत्वा रामस्य वचनम् रामम् ज्ञात्वा हरिम् परम् पूजयामास विधिवत् भक्त्याय परमया मुनि वन्ये फले कुतातिथ्यम् उपविष्टम् रघुत्तमम् सीताम् च लक्ष्मणम् चैवे सन्तुष्टो वाक्यमब्रवीत् भार्या मेतिव संवृद्धा य विश्रुताय सपश्चरन्ति सुचिरम् धर्मज्ञा धर्मवत्सल अन्तस्तिष्ठति ताम् सीता पश्चात्तरि निषोदनय तथेति जानकिम्प्रहे रामो राजीवलोचन गच्छ देवीं नमस्कृत्य शीघ्रम् ये हि रामवचनम् सीता चापि तथा करोत् दण्डवत् पतितामग्रे सीताम् दृष्ट्वा तिरुष्टधि अनसूया समालिङ्ग्य वत्से सीतेति सादरम् जिर्वेदौ निर्मिते विश्वकर्मणा कूले द्वे ददौ तस्यै निर्मले भक्तिसंयुताः अङ्गरागं च सीतायै ददो दिव्यम् शुभाननाय न चक्ष्यतेऽङ्गरागेण शोभातां कमलानने पातिव्रत्यम् पुरस्कृत्य रामम् मन्वे हि जानकी कुशली राघवो यातु त्वया सह भोजयित्वा यथा न्यायम् रामम् सीता समन्वितम् लक्ष्मणम् च तदा रामम् पुनः प्राहे कृतञ्जलिः राम त्वमेव भुवनानि विधाय देहान् बिभर्षि न श गुणे विलिप्त तत्त्व बिभेत्यखिलमोह करीच इति श्रीमद् ध्यास्वरामायणे महामेश्वरतमादे योध्याकाण्डे नवमः सर्गः अयोध्याकाण्डसमाप्तः